अथ त्रयोदशोऽध्यायः शौनक उवाच किमर्थम् राजशार्दूलः स राजा जनमेजयः सर्पसत्रेण सर्पाणाम् गतोन्तम् तद्वदस्व निखिलेन यथा तत्त्वम् सौते सर्वमशेषतः आस्ति कश्चिद्विजश्रेष्ठः किमर्थम जपताम्बरः मोक्षयामास भुजगान् प्रदीप्ताद्वसुरेतसः कस्य पुत्रः स राजासीत् य आहरत् स च द्विजातिप्रवरः कस्य पुत्रोऽभिधस्व मे सौतिरुवाच महदाख्यानमास्तीकम् यथैतत् प्रोच्यते द्विजा सर्वमेतदशेषेण शृणुमेव दतां शौनक उवाच श्रोतुमिच्छाम्य शेषेण मनोरमाम् आस्ति कस्य पुरा नर्षेर्ब्राह्मणस्य यशस्विनः सौतिरुवाच इतिहासमिमम् विप्राः पुराणम् परिचक्षते कृष्णद्वैपाय न प्रोक्तम् प्रचोदितः सूतः पितामेलो महर्षणः शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथा तथम् इदमास्तीकमाख्यानम् तुभ्यं शौनकपृच्छते कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् आस्ति कस्य पिता ह्यासीत् प्रजापति समः प्रभुः ब्रह्मचारी यथा रतः सदा जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः या या प्रवरो धर्मज्ञः संशितव्रतः स कदाचिन्महाभागस्तपो बलसमन्वितः चचार पृथिवीम् सर्वाम् यत्र सायम् गृहो मुनिः तीर्थेषु च कुर्वन्नटति सर्वशः चरम् दीक्षा महातेज दुश्चरामकृतात्मभिः वायुभक्षो निराहारः शुष्यन्न निमिषो मुनिः इतस्ततः परिचरन् दीप्तपावकसप्रभः अटमानः कदाचित्स्वान् सददर्श पिता महान् लम्बमानान् महागर्ते पादैरूर्ध्वैरवाङ्मुखान् तानब्रवीत्स दृष्ट्वैव के भवन्तोऽवलम्बन्ते सर्वतः परिभक्षिते मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना पितर ऊचुः याया वरा नाम वयम् ऋषयः संशितव्रताः सन्ता न प्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् अस्माकम् सन्ततिस्त्वे को जरत्कारुरिति स्मृतः मन्दभाग्योऽल्पभाग्यानाम् तप एव समास्थितः न स पुत्राञ्जनयितुम् दारान्मूढश्चिकीर्षति तेन लम्बामहे गर्ते सन्तानस्य क्षयादिह अनाथास्तेननाथेन यया दुष्कृति नस्तथा कस्त्वम् बन्धुरिवास्माकमनुशोचसि सत्तमा ज्ञातुमिच्छामहे ब्रह्मान् को भवानिह न किमर्थम् चैव नः शोच्या ननु शोचसि सत्तमा जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः स पितामहाः करवाण्यद्य जरत्कारुरहम् स्वयम् पितर ऊचुः यतस्वयत्नवान्स्तात सन्तानाय कुलस्य नः आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो न पुत्रिनोयाम् व्रजन्ति वै तद्दारग्रहणे यत्नम् सन्तत्याम् च मनः कुरु पुत्रकास्मन्नियोगात्त्वमेतन्नः परम् हितम् जरत्कारुरुवाच न दारान्वै करिष्येऽहम् न धनम् जीवितार्थतः तु हितार्थाय करिष्येदारसङ्ग्रहम् समयेन च कर्ताह मनेन विधिपूर्वकम् तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम् स दित्सिता चैव बन्धुभिः भैक्षवत्तामहम् कन्यामुपयंस्ये विधानतः दरिद्रायहि मे भार्याम् विशेषतः प्रतिग्रहीष्यते भिक्षाम् तु यदि कश्चित् प्रदास्यति एवम् दारक्रिया हेतोः प्रयतिष्ये अनेन विधिना शश्वन् न करिष्येह मन्यथा तारणाय वै शाश्वतम् स्थानमासाद्य मोदंतां पीतरो मम श्री महाभारते आदिपर्ण आस्तीकपर्वि जरत्कारुतृ संवादशोध्याय